श्रीहरये नमः अत एको नवतितमोऽध्यायः श्रीशुक उवाच सरस्वत्यास्तटे राजन् ऋषयक्सत्रमास वितर्कसमभूतेषां त्रिष्वति से शुको महान् तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप तज्ज्ञप्त्यै प्रेक्षयामासो सोऽभ्यगद्ब्रह्मणः शभ न तस्मै ब्रह्मणं स्तोत्रं चक्रे सत्त्वपरीक्षया तस्मै शुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः असि समत्यथा वह्निं स्वयोन्यावारिण आत्मभूः ततः कैलाशमगमत्स तं देवो महेश्वरः परिरब्धुं समारेभे उत्थाय भ्रातरं मुधा न चत्वमस्युत्पधग इति देवः शुकोपः शूलमुद्यं यतं हन्तो मारभे पतित्वा पादयोर्देवी सान्त्वयामासथं अतो जगाम वैकुण्ठं यत्र देवो जनार्दनः स यानं श्रिय उत्सङ्गे वधावक्षस्य भगवान् सह लक्ष्म्या सतां गतिः स्वतल्पात् अभरुह्याथ न नाम शिरसा आहते स्वागतं ब्रह्मन् निषेत् अत्रासने क्षणम् अजानतामागतान् वक्षन्तुमर्हत नः प्रभो अतीव कोमौ दाध चरणौ ते म इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिनः पुः सकलोकं मां लोकपालांश्च मद्गतान् पादोदगने भवतस्तर्थानां तीर्थकारिणः अद्यागं भगवन् लक्ष्म्या आसमेकान्तभाजनं वत्स्यत्युरसि मे भूतेर्भवत्पाद हताह्म एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिर निर्वृतस्तर्पितस्तूष्णे भक्त्योत्कण्ठोऽश्रुलोचनः पुनश्च शत्रमा व्रज मुनीनां ब्रह्मवादिनां स्वानुभूतमशेषेण राजन्ब्रुहो अवर्णय तन्निसंज्ञातमुनयो विस्मितामुक्तसंशयाः भूयां सं श्रद्धतुर्विष्णं यतश्शान्तिर्यथो भयं धर्मस्साक्षात् यतो ज्ञानं वैराग्यं च तदन्वितम् ऐश्वर्यं चाष्टधा यस्मात् मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् अकिञ्चनानां सधूनां यमाहोः परमां गतिं सत्वं यस्य प्रिया मूर्तेर्ब्राह्मणस्थास्विष्टदेवताः भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः त्रिविदा कृतयस्तस्य राक्षसा असुरासुराः गुणिन्या मायया सृष्टा सत्वं तत्तीर्थसाधनं श्रीशुक उवाच एवं सारस्वथा विभ्रा नृणां संशयनुत्तये पुरुषस्य पदां भोज सेवया तद्गतिं गताः सूतौ वाच इत्येतन्मुनिधनयास्य पद्मगन्त पीयूषम् भव भयभित्परस्य पुंसः शुश्लोकं श्रवणपुटैः पिभत्य भीष्णं पान्तो द्वभ्रमणपरिश्रमं जगाथी श्रीशुकौ वाच एकदा द्वारवत्यां विप्रपत्न्या कुमारकः जातमात्रो भुवन् स्पृष्ट्वा ममारखिलभारतः विप्रो गृहीत्वा मृतकम् राजत्वार्युपदाय सः इतम् प्रोवाच विलपन्नातुरो दीनमानसः ब्रह्मत्विषडधियो लुब्धस्य विषयात्मनः शद्रभन्तो कर्मदोषात् पञ्चत्वमे गधोर्भगः हिंसाविकारम् नृपतिं तुशीलम् अजितेन्द्रियम् प्रजाभजन्त्यशीधन्ति दरिद्रा नित्यदुःखिताः एवं द्वितीयं विप्रर्शिस्तृतीयं त्वमेवमेव च विसृज्य सर्वद्वारे तां गातां समगायत तामर्जुनमुपसृत्य कर्हि चित्के स वान्तिके ब्राह्मणं समभाषत किं स्विद्ब्रह्मण् त्वन्निवासे इग नास्ति धनुर्धरः राजन्यभन्तुरे ते वै ब्राह्मणास्तत्र आसते धनधारात्मजाभृक्ता यत्र शोचन्ति ब्राह्मणाः ते वै राजन्यवेषेण नटा जीवन्त्यशुम्भराः अहं प्रजावां भगवन् रक्षिष्ये दीनयोरिह अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मष ब्राह्मणौ वाच सङ्कर्षणो वासुदेवः प्रद्युम्नो दन्विनाम्बरः अनिरुद्धो प्रतिरतो न त्रातुं शक्नुवन्ति यत् तं कथं नु कर्म दुष्करं जगदीश्वरैः चिकीर्षसि त्वं बालि तन्न श्रद्धात्महे वयम् अर्जुनो वा नाकं संकर्षणो ब्रह्मन् न कृष्णकाष्णीरेव च वा अर्जुनो नाम गाण्डीवं यस्य वैधनोः मा वं स्ताममम ब्रह्मन् वीर्यं त्रयम्बकतोषणं मृत्युं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो श्रीशुक उवाच एवं विप्रं। पाल्गुनेन परन्तप जगाम स्वग्रहं प्रीतः पार्थवीर्यं निसामयन् प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः पाहि पाहि प्रजामृत्यो इत्याहार्जुनमातुरः स उपस्पृश्यः दिव्याङ्गस्त्राणि संस्मृत्य सज्जं गाण्डीवमादते न्यरुणत्सूतिकाघारं शरैर्नानास्त्रयोजितैः तिर्यगो त्वमतः पार्थश्चकारशरपञ्जरम् ततः कुमारः सञ्जातो स शरीरो विहाय सा विजयं विनिन्दन् कृष्णसन्निधौ मौढ्यं पश्यतमे योहं श्रद्धते क्लीबकर्तनं न ना प्रद्युम्नो नानिरुद्धो न ना रामो न च वकेशवः यस्य सेको परित्रातुं को न्यस्तदविदेश्वरः दिगर्जुनं मृषाबाधं दिगात्मस्लागिनो धनुः दैवोपसृष्टं यो मौढ्याधानि नीक्षति दुर्मतिः एवं शपति विद्यामास्ताय पाल्गुनः ययौ संयमनीमासो यत्रास्ते भगवान् यमः विप्रापत्यं अचक्षणास्तथ ऐन्त्रीमघात्पुरीम् आग्नेयीं नैरृतिं सौम्यां वायव्यां वारुणीमथ रसातलं नाहपृष्टं दुष्ण्यानि अन्यानि बुधायुतः ततो लब्ध द्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः अग्निं विविक्षु कृष्णेन प्रत्युक्तप्रतिषेदथा दर्श्ये द्विजसूनुंस्ते मा वज्ञात्मानमात्मना एतेन कीर्तिं विमलाम् मनुष्या स्थापयिष्यन्ति इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः दिव्यं स्वरतमास्ताय प्रतीचीं दिशमाविशन् सप्त द्वीपान् सप्त सिन्धोन् सप्त सप्त गिरीनथा लोकालोकं तथातीत्य विवेशसुमहत् तमः तत्रास्मा श्यसुग्रीव मेघपुष्पबलाः काः तमसि भ्रष्टगतयो बभूवोर्भरदर्शभा तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः हैस्रादित्यशङ्कासं स्वचक्रं प्राकिणोत्पुरः धमस्सु घोरं गगनम् कृतम् महद्विधारयत् भूरितरेण रोचिषा मनोजवं निर्विविशे सुदर्शनं गुणच्युतोरामसरो यथा त्वारेण चक्रानुपतेन तत्तमः परं परं ज्योतिरनन्तपरं समश्नुवानं प्रसमीक्ष्य पाल्कुणः प्रधाडि दाक्षोभिददेक्षिणीवुभे ततः प्रविष्टः सलिलं नभस्वता बलीयसैजत् बृहत् ऊर्मिभूषणं तत्राद्भुतं वै भवनं द्युमत्तमम् प्राजन्मणिस्तम्भसहस्रशोभीतं तस्मिन् महाभीममनन्तमद्भुतं सहस्रमूर्धन्यपणामणिद्युपिः विप्राजमानं द्विगुणोल्भनेक्षणम् सिताचलाभं सितिकण्ठजिह्मं सान्त्राम्बुताभं सुपि शङ्घवाससं प्रसन्नवक्त्रं रुचिराय महामणिव्रातकिरीटकुण्डल प्रभा परिक्षिप्तसहस्रकुन्तलं प्रलम्ब सार्वष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्म्यं वणमालयावृतं सुनन्दनन्दप्रमुखैस्वपार्षधये पुष्ट्याशिया कीर्त्य जया णं परमेष्टिनां पथिं वदन्त आत्मानमनन्तमश्च्युतो जिष्णुश्च सद्दर्शनजातसाध्वसः तावाकभूमा परमेष्टिनां प्रभोर्भद्धाञ्जलीसस्मितमोर्जया गिरा द्विजात्मजो मे युवयोर्धिक्तृक्षुणा मयोपनीता बुवि धर्मगुप्तये कलावतीर्णा ववनेर्भरासुरान् हत्वेगभूयस्त्वरयेतमन्ति मे पूर्णकामा पूर्णकामावपी युवां धर्ममाच प्रथां स्थित्यै वृषभो लोकशङ्क्रहम् इत्यादिष्ठो भगवतौ कृष्णौ परमेष्टिना ओमित्यानं यभूमा नमाधाय द्विजधारकान् न्यवर्ततां स्वखं धाम सम्प्रहृष्टौ यथा गतं विप्राय दततुः पुत्रान् यथा रूपं यथा धाम पार्थः परमविस्मितः यत्किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् इतीदृशानि अनेकानि वीर्याणीह प्रदर्शयन् बुबुजे विषयान् ग्रम्या नीजेशात्यूर्जितैर्मखैः प्रववर्षा किलान् कामान् प्रजासुः ब्राह्मणादिशो यथा कालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्तितः हत्वा नृपानधर्मिष्ठान् घातयित्वा अर्जुनादिभिः अञ्च धर्मं धर्मसुतादिभिः इति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्धे द्विजयकुमारनयनं नाम एकोननवतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द